मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितं स्वानन्दलोकवर्णनं श्रीगणेशाय नमः अैल उवाच श्रुत्वा गृत्समदस्यैव चरितं सर्वदायकं न महायोगिन् भवाम्यमृतपानवद न कृत्समदतुल्यं तु पश्यामि ब्रह्मगोलके धन्योऽयं योगिनां मध्ये गाणपत्येषु मानद अधुना वदयोगीश गणेशलोकवर्णनं कीदृशोऽयं गणेशस्य निचलोको विशेषतः गार्ग्य उवाच अत्र ते चेदिहासं पुरादनं मुद्गलस्य मुने संवादयुक्तं कपिलस्य वै ये कदा मुद्गलो योगी गाणपत्याग्रणीर्नृप जगामकपिलस्यैवाश्रमं गङ्गातटे स्थितम् णम्य जगादापि जगदापि कपिलं हर्षसंयुधः कृत्वा करपुडं चाङ्गिरस आदव वराग्रणीः मुद्गल उवाच साक्षाद्विष्णुस्वरूपस्त्वम् सर्वार्थदायक गाणपत्येषु मुख्यस्त्वम् साङ्ख्यानां परमा गतिः त्वद्दर्शनजपुण्येन कृतकृत्योपमञ्जसा कुलं धन्यं यशो विद्याज्ञानं मे तेद्यदर्शनाद एवं वदन्तमत्यन्तं कपिलस्थं ननाम च पूजयामः सहर्षेणमुद्गलं भावभाविदं तदस्तं कपिलो योगी जगाद जगादवचनं हृदं तदते दर्शनेनाद्य पवित्रोऽहं च साम्प्रतं पूर्णभक्तस्त्वमेवै गो गणेशस्य महामुने मुद्गल साक्षान्मुद्गलशस्त्रेषो गाणेशो नात्र संशय यहा मुगरशस््रेण चूर्णय्वा पदार्थका मानव परा तथाया महापस योग से अभिमान सामचूर्ण्य कृतो मूलविवर्जितः नानायोगिन एवं तं योगेन स्वाभिमानकं चूर्णयन्ति महाभाग तथापि हृदि तेनत्वं मुद्गलो योगी जगत्येको विनिश्चितं वयं न तादृशवत्सक् ह्येकमार्गसमाश्रयाद त्वदीया कृत्याङ्गिरः सम्पुराणं सम्भविष्यति सर्वेषामान्यमेकं तद्योगप्रदम्न संशयः अभिमानेन युक्तानि पुराणानि विशेषतः शास्त्राणि नात्र सन्देहकारणं शृणुमुद्गल ज्ञातं गुह्यं संगोप्य स्वमदं पुनः स्थापयित्वा विशेषेणाञ्जसा तथ्यं वदन्ति ते गणेशभक्तः संस्त्वं तु तथापि गणनायकं रहस्येन विशेषार्थं न करोषि कदाचन त्वदीयं वचनं श्रेष्ठं सर्वमान्यं न संशयः अभिमानेन हीनत्वाद्वेदगुह्यप्रकाशकम् त्वया त्वयाकृतं पुराणं यत्तदान्त्यं प्रभविष्यति पुराणानामहश्रेष्ठं मुद्गलं मुद्गलाकृति त्वयोक्तं निन्दयेद्यो वै भवेत् स निरयप्रदः अन्येभ्यस्तु स्वयम् मूर्खो नरकेष्वदिष्यदि वेदशास्त्रपुराणानां मुद्गलस्त्वत्कृतो महान् ग्रन्थो भविष्यन् नूनं निरभिमानत्वकारणात् न मुदगलोगी नमुदगल कदा गणपतो महायोगी त्रिकालेशु विश्चित स्वागत ते महाभागस् यदा मे प्रसन्न संहृष्टो भवा गणप्रििया कपिल न महायोगी सत्तस् तत्र भूमिप मुद्गलस्तत्र सान्निध्ये न्यवसद्भावसंयुधं एकदा सुखमासीनं कपिलं योगिनां वरं पप्रद्गलो हर्षात् विनयावनदो भवद मुद्गल उवाच स्वामिं त्वदीय गेहेश चिन्तामणिः समागतः पुत्रभावेन साक्षात्तु ब्रह्मणाम् नायकः त्वयाभावेन त्वया भावेन सर्वेश आराधितो निरन्तरं गुह्यं तस्य त्वमेवेह जानास्यत्र न संशयः गणपत्यस्वयं योगी गणेशजनकः पुनः परिपृच्छाम्यदस्त्वाखं वद सर्वं महाप्रभो भवादृश्या जनानां तु तारणाय भवन्तिः स्वानन्दवसति स्वामिन् कीदृशी तत्र सुखं विस्तार कीदृशस्तस्या केन योगेन लभ्यते न कोऽपि तस्य लोकस्य जानादित्वदृदे परं रहस्यं वद सर्वेश गाणपत्यस्य विस्तराद् गार्ग्य उवाच एवं पृष्ठो महासिद्धस्थं प्रहस्य प्रशंसयन् कपिलो जगादकपिलो हर्षाद्गणपत्याग्रणीर्वचः कपिल उवाच शृणुमुद्गलमाहात्म्यं सङ्क्षेपेण ब्रवीम्यहं स्वानन्दलोककम्पूर्णं सारं सर्वत्र सम्मतं गणासुरं गणाध्यक्षो हत्वा परमदुर्जयम् गन्तुं समुद्यतस्तत्र निजलोके यदा भवत तदो मयादिभक्र्या वै गणनायकः उवाच मां वरं योगिन् वृणु दास्यामि मानद दा। तदश्चिन्तामणिं विप्रणम्यो चेदि वद स्वानन्दलोकस्य माहात्म्यं गणनायक नानालोका श्रुता स्वामिन् न स्वानन्दं गजानन जानाति कोऽपि यत्र प्रभो वससि नित्यदा चिन्तामणिरुवाच स्वानन्दं यच्च वेदेषु ब्रह्म योगीन्द्रसत्तम तदेव मायया पूर्वं बभूव नगरमहद स्वसंवेद्येन योगेन लभ्यते नान्यथा क्वचिद अथवा मे व्रताद्यैश्चोपासनेन महामुने न जपैस्तपसादानैर्नानाकर्मपरायणैः लभ्यते निजोको वै जानी मुनिश्तम नक् विषु शंभु आदा शुकाद्या मगहीनवादगम्य सदा चुर्धमये न कदाचन अगम्यस्तर्न सदेह माम लोको महामदे दशसाहस्रकं विप्रयोजनानां प्रविस्तरः अधऊर्ध्वं च सर्वत्र तावन्मानः प्रकीर्तितः वर्तुलसर्वदशोऽपि स्वस्थाद्धारेण सदा ज्योतिर्मयसाक्षात् ज्योतिषां ज्योतिरुच्यते न तत्र स सर्वं निर्गुणं नैव विद्यते पुमान् न सकं न स्त्री वर्तते मुनिसत्तमा चतुर्विधेषु सर्वेषु mm -hmm. नानाभावगतेषु च स्वसंवेद्यं निजात्मस्थं संस्थितं मेत्रसन्निधौ चतुर्विधेषु सर्वेषु मायायुक्तमिह स्थितम् विजानीहि स्वस्वरूपं महामदे तेषु मोहविहीनं यत् साक्षिरूपं सदा स्थितं निर्गुणेन स्वभावेन सदा कण्डमयं परं तयोर्योगे निजानन्दो धुण्डि लोकग एव बभूव तत्र भक्त्या मे भक्तास्तिष्ठन्ति मम लोके महाभाग न क्षुधा न तृशादिकं सदा स्वानन्दभोगस्था वसन्ति मम सेवकाः न कृत्रिमं सुखं तत्र विद्यते कृत्रिमं न हि स्वानन्देन निमग्नास्ते सर्वं भुञ्जन्ति नित्यदा सगुणं तु सुखं सर्वे भुञ्जदे निर्गुणं तथा स्वानन्दसम्भवं तत्था एककाले का महामदे अत्र सर्वं नानाभेदमयं मुने तदेव ज्योतिरूपेण मम लोके प्रतिष्ठति अत्रैव न यच्च निर्गुणं विप्र तत्र तद् मेलोके किल तिष्ठति सर्वदा स्वानन्दसम्भवम् सर्वं तत्र तिष्ठति नित्यदा माययामेऽत्र लोके तः सदाश्चर्यमयो बभौ स गुणो नैव विप्रेष्य सगुणं तत्र वर्तते निर्गुणो न स नैर्गुण्यं वर्तते मे च सगुणैर्निर्गुणैर्हीनं वर्तते तत्र सर्वदा अद आश्चर्यसंयुग्तो मम लोको विशेषदः न तत्राहं स्वभावश्च नाहं भावविवर्जितः मम लोके महायोगिन् सदा सगुणामृतरूपं यद्भोगदमृततुल्यकं निर्गुणामृतरूपं यदमृदे भोगकारकं तयोर्योगे महायोगिन्नमृतं स्वस्वरूपकं तन्मयत्सागरस्तत्र स्वस्थाधारेण वर्तते मिष्ट ठं नानाविधं तस्मिन्निःसृतं सगुणात्मकं निर्गुणात्मक मेदस्मादिक्षु सागर उच्यते स्वस्वरूपात्मकं तत्र जलं रक्तस्वरूपकं तस्य नश्यतिपानेन नैर्गुण्यं सगुणात्मकं तस्माद्धारासमुद्भूता मधुधारा प्रकथ्यते तया सगुणनैर्गुण्यम् वरुददे तृप्तिसंयुदम् तत्राहम् सिद्धिबुद्धिभ्याम् सदा क्रीडामि मानद ब्रह्मप्रियाद्यकास्तत्र गणा मे निवसन्ति शुण्डादण्डादिचिह्नैश्च संयुतोऽहं सदा मुने गणामेने तदा भक्ता स्वेच्छारूपा वसन्ति ते ये दत्ते कथितं सर्वं मम लोकसुखमहद मानयुक्तं मानहीनं हृदये पश्यमामुने मुने ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्रीम्न्मोले महापुराणे पंचमे खंडे लंबोदरचर स्वानंदलोकवर्णन नाम चत्वारिम् सप्तमोध्याय ओ